नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अस्माकं विषयः अस्ति करपत्रं धर्मः कः इति विषयः अस्ति तर्हि अत्र एतावता अस्माभिः किं ज्ञातम् इति चेत् मानवः कः मानवः पशुभ्यः कथं भिन्नः अस्ति अतं मनुष्यस्य जीवने तादृशसन्दर्भः आयाति यदा सः लौकिकवस्तुभ्यः तृप्तः न भवति सः इतोपि अधिकं किञ्चित् आकाङ्क्षते इत्युक्ते तत्र लौकिकसुखेन यशः वा भवतु धनं वा भवतु पदवी भवतु अन्नं भवतु अथवा लौकिक आकर्षणं वा भवतु यत्किमपि भवतु तत्सर्वमपि पशोः एव अभिव्यक्तिः अस्ति पशुस्वभावस्यैव अभिव्यक्तिः अस्ति किमर्थं चेत् वयं तु सर्वे पशुभ्यः एव विकसिताः मनुष्यस्य जीवने तादृश तादृशः तादृशं क्षणम् आयाति यदा सः इतोपि अधिकं ज्ञातुमिच्छति तदेव सङ्केतः अस्ति यत् इत्युक्ते एतावता अस्माभिः उक्तं यत् चक्षुः उद्घाटितः भवति इति उक्तं खलु तदेव ता तादृशसन्दर्भः यदा उचितः उचितं क्षणम् आयाति तदानीं तस्य अन्तचक्षुः उद्घाटितः भवति तदानीं सः यदा तत्र तस्य अन्त अन्तचक्षुः उद्घाटितः भवति तदानीं तस्य पुरतः तस्य सम्पूर्णजीवनम् आयाति तदानीं सः चिन्तयति अहं मम जीवनात् तृप्तः नास्मि अहं कीदृशजीवनं यापयामि स्म एतत्तु बहु क्रिटिकल् शिफ्ट् अस्ति तस्य जीवने अ टर्णिङ्ग् पायिण्ट् इति वक्तुं शक्नुमः मनुष्यस्य जीवने टर्णिङ्ग् पायिण्ट् इति वक्तुं शक्नुमः ततः पर्यन्तं सः पशुस्वभावे पशुजीवनम् एव यापयति सः अन्तः पशुः बहिः मनुष्यरूपेण व्यवहरति व्यवह परन्तु यदा तस्य अन्तचक्षुः उद्घाटितः भवति तदानीं सः मानवः भवितुं यतते एतदेव वयं वदामः द्विजः इति वयं वदामः पुनः जन्म अभवत् यदा तस्य अन्तचक्षुः उद्घाटितः तदानीं पुनः जन्म अभवत् द्विजः इति वयं वदामः द फस्ट् बर्त् इस् फिसिकल् अस्माकं प्रथमजन्म तु शारीरिकम् अस्ति परन्तु यदा अन्तचक्षुः उद्घाटितः भवति तदानीं तत्र द्वितीयवारम् अस्माकं जन्म भवति अस्माभिः तु तत्र बाल्यकाले अस्माभिः सर्वे तु पशुरूपेण एव व्यवहारः अस्ति तत्र पशुस्वभावः एव अस्ति तत्र कालनम् अपि च निद्रा इत्यस्मिन्नेव अस्माकं समयः चलति परन्तु कदाचित् सर्वेषां जीवने इति नास्ति परन्तु कदाचित् अस्माकं जीवने मनुष्यः एतादृश अनुभवं प्राप्नोति द क्रिटिकल् शिफ़्ट् यदा सः इतोपि अधिकं किञ्चित् uh, गाढतया डीपर् किञ्चित् ज्ञातुमिच्छति सः किमपि ज्ञातुमिच्छति अहं कहा, कुत्र हम गच्छामि मम जीवनस्य लक्ष्यं किम् हम मया किमर्थं जन्म uh, प्राप्तम् इति एतादृशाः प्रश्नाः तस्य मनसि uh, आयान्ति uh, मनुष्यस्य मनसि मनसि एतादृशप्रश्नाः आयान्ति इत्युक्ते कदाचित् मनुष्यः तेभ्यः प्रश्नेभ्यः अपि सम्पूर्णतया स्पष्टतया ज्ञातुं शक्नो ज्ञातुं न शक्नोति यत् किमर्थम् अहम् अतृप्तः अस्मि किमर्थं लौकिकवस्तुभ्यः मया सुखं न प्राप्तम् इति कदाचित् सः ज्ञातुमपि न शक्नोति परन्तु एतादृशचिन्तनं यत् तस्य मनसि आयाति खलु अहं कः अहं कुत्र गच्छामि मम लक्ष्यं किम् इति एतादृशप्रश्नाः यदा तस्य मनसि आय प्रश्नाः आयन्ति तदानीं तदेव तत्र द्विजः इति वदामः क्रिटिकल् शिफ्ट्ट् इस् द सेकेण्ड् बर्त् क्रिटिकल् शिफ्ट् इस् द सेकेण्ड् बर्त् सो मनुष्यस्य तु अनन्तेषणा अस्ति अनन्तप्राप्तेः पिपासा वर्तते सर्वदा पिपासा वर्तते सः मूलविषयः अस्ति मनुष्याणां धर्मस्य विषये सः वस्तुतः मनुष्यस्य धर्मः अत्र अस्माकं करपत्रे तत्र अस्माभिः दृष्टं तत् तत् मनुष्यस्य अनन्ताकाङ्क्षा अनन्तेषणा वर्तते लौकिकवस्तुभ्यः सा एषणा पूरिता न भवति अस्माभिः अनन्त अनन्त एषणायाः तृप्त्यर्थं भ्रमणः प्राप्तिः अपेक्षिता इति तत्र तत् कास्मिक् एण्टिटि इस् द ओन्लि एण्टिटि दट् इस् uh that can satisfy that happiness the infinite happiness right so atatra ananta satta ekaiwa bhavati bhavitum arhati that is the cosmic entity the cosmic entity consciousness supreme consciousness parama purushah brahma etkim api vadatu hm atitite tatra etadresha etadresha namakaranaani bahuda ashruyante cosmic entity consciousness supreme consciousness parama purushah ब्रह्मा इति एतादृशभावना एतादृशी भावना सर्वेषां मनुष्यस्य अन्ते वर्तते इत्युक्ते यदा तस्य चक्षुः उद्घाटितः भवति तदानीं सः भावना अनुभवति परन्तु सर्वेषाम् अन्ते एतादृशभावना वर्तते एव इत्युक्ते तत्र यदाते ते तत्र यदा अस्माभिः पूर्वमपि उक्तं रात्रौ नक्षत्राणि नक्षत्राणि पश्यन्ति अथवा समुद्रस्य समीपे गत्वा तत्र उपविश्य समुद्रं पश्यन्ति अथवा पर्वतं सुन्दरं पर्वतं पश्यति तदानीं तत्र मनुष्यः आनन्दम् अनुभवति एतत्तु तत्र यद् दर्शनमस्ति तद्दृष्ट्वा एव तस्य आनन्दः भवति एतादृश तस्य अन्तः यः अनन्तेषणा अस्ति सा भवति परन्तु एतादृश अनुभवः तु तत्र क्षणिकानुभवः अस्ति खलु इदानीम् अनुभवामि नास्ति यावत्पर्यन्तं पश्यामि तावत्पर्यन्तं सु आनन्दः भवति परन्तु एतादृश अनुभवेन वयं किं ज्ञातुं शक्नुमः इति चेत् अस्माकम् अन्ते अनन्तेषणा वर्तते इति तत्र क्षणिकरूपेण वयम् अनु अनुभोक्तुं परन्तु पर्वतसमीपे गमनम् अपि च साधनां द्वयमपि भिन्नभिन्नविषयः अस्ति तत्र साधना यः साधनां करोति तस्य अनुभवः इतोपि विलक्षण अनुभवः अस्ति यः तत्र पर्वतसमीपे गत्वा पर्वतं पश्यति अथवा समुद्रं पश्यति तस्य अनुभवः यद्यपि क्षणिकरूपेण समानः अस्ति परन्तु तथापि निरन्तरः निरन्तरः अनुभवः तु यः साधनां करोति तस्य भवति तत्र तत्र सा यत् याता यथार्थ्यं यातार्थ्यम् वास्तविकता वास्तविकता कदा ज्ञायते इति यदा कश्चन स्वस्य नयनम् उन्मील्य तत्र साधनायाम् उपविशति मेडिटेशन् यदा कर्तुम् उपविशति अन्तः गच्छति यदा अन्तः गच्छति तदानीमेव सः ता, तादृश अनन्तेषणायाः पूर्तिं परिपूर्णता था, परिपूर्णतां प्राप्तुं शक्नोति पर्वतस्य समीपे गमनम् एतत् सर्वं तु अस्ति परन्तु तत्र केवलं क्षणिकरूपेण एव प्राप्नुमः तादृश तु सर्वेषां भवति सर्वेषां मनुष्याणां तादृश भवति परन्तु निरन्तरनिरन्तरसुखम् अतिशयसुखं यदा वयं प्राप्तुमिच्छामः तदानीं तत्तु साधनाद्वारा एव भवति तदर्थम् अस्माभिः सर्वैः योगनिष्ठजीवने यत्नः करणीयः यत्नः करणीयः अत्र वयं वारं वारं, वारं पूर्वमपि उक्तवन्तः यत् अत्र सर्वं प्राक्टिस् अस्ति नैण्टि नैन् पर्सेण्ट् प्राक्टिस् अस्ति केवलं वन् पर्सेण्ट् तियरी अस्ति अत्र यत्किपमे किमपि वयं पठामः तस्य स्वजीवने आचरणम् अपेक्षितमस्ति अत्र श्रुत्वा वयं गच्छामः तेन न कोऽपि लाभः अतः गीता यतावता यद्यद् अधीतं सात्विकाहारः आसनानि उपवासः निर्जलोपवासः एतत् सर्वम् अस्माभिः अस्ति अतः पुनः पुनः अस्माकं जीवने अस्माभिः स्मर्तव्यं मया जन्म किमर्थं प्राप्तं मम जीव जीवनस्य लक्ष्यं किम् इति प्रतिदिनम् अस्माभिः स्मर्तव्यं प्रतिदिनं यदा वयं प्रातःकाले उत्थाय अग्रे तत्र स्वजीवने यत्किमपि कार्यमस्ति तस्य तस्यां दिशि गमनात् पूर्वम् अस्माभिः चिन्तनीयं मम जन्म किमर्थम् अभवत् मम जीवनस्य लक्ष्यं किम् इति तद् वयं स्मृत्वा अग्रे गच्छामः चेत् तदानीं तत्र वयम् उचितः मार्गः कः इति वयं ज्ञातुं शक्नुमः इति एतावता उक्त्वा अहम् इदानीं तत्र करपत्रे तत्र ततः अग्रे सर्तुम् इच्छामि तत्र पेज् लेवेन् इत्यत्र इट् इस् ओन्लि द वेल् रिफ्लेक्टेड् कान्शियस्नेस् वित् डिफ़्रेण्ट् सेट् डिफ्रेण्ट् ह्यूमन् बीङ्ग्स् फ्रम् एनिमल्स् ततः आरभ्य पठितुं ततः आरभ्य पठामः तत्र कः सरलभगिनी पठितुमिच्छति वा अस्तु केवलं सुप्रतिबिम्बितम् चैतन्यम् एव मनुष्यान् पशुभ्य भिन्नति तर्हि अस्य चैतन्यस्य सदुपयोगः मनुष्याणाम् अवश्यकर्तव्यम् नास्ति किम् यदि मनुष्याणाम् चैतन्यम् तेषाम् पशुत्वस्य पृष्ठतः सुप्तम् भवति तर्हि निश्चयेन मनुष्याः पशुवत् आचरन्ति वस्तुतः ते पशुभ्यः अधमाः भवन्ति यतोहि यद्यपि तेषाम् सुप्रतिबिम्बितं चैतन्यं वर्तते तथापि ते तस्य चैतन्यस्य उपयोगं न कुर्वन्ति एतादृशाः जनाः मानवपदवीं न अर्हन्ति एतादृशाः जनाः मनुष्यशरीरे विद्यमानाः पशव एव सन्ति अस्तु वयं जानीमः चैतन्यस्य प्रतिबिम्बं यद् शरीरे भवति तत जीव वयं वदामः इति प्राणिषु भवति किन्तु मनुष्यः इति यत् पशु पशुभ्यः विकसित अस्ति मनुष्ये चैतन्य प्रतिबिम्बं स्पष्टम् अस्ति अन्यजी जीवन् अन्यजीवानाम् अपेक्षा यदि मनुष्य मनुष्ये प्र प्रतिबिम्बं चैतन्यस्य प्रतिबिम्बं स्पष्टम् अस्ति तर्हि मनुष्य पशूनां पक्षिणाम् अन्ये ये जीवाः सन्ति तेषाम् अपेक्षा इति उच्चपदवी अस्ति मनुष्यस्य जीवे अन्यजीवेषु अपेक्षाः किन्तु मनुष्य इति मनुष्य इव प्रचलति वा न इति द्रष्टव्यं मनुष्य पशुभ्यः विकसित अस्ति किन्तु तस्य अन्तर् अन्तर् अन्तरे अपि पशुस्य धर्म अपि अस्ति मनुष्यधर्मपि अस्ति किन्तु पशुसधर्म यत् अस्ति तत् विकसित भवति किन्तु मनुष्यधर्म इति किञ्चित् हिडन्नस्ति किं भवति संस्कृते भगन् गुप्तरूपेण अस्ति गुप्तरूप गुप्तरूपेण अस्ति इति मनुष्य जाना न जानाति कुत्र अस्ति अतः मनुष्यः पशु इव प पशुः इव व्यवहारं करोति पशु अग्रे यदि वयं किञ्चित् भोजनम् आयान् आयानामः सः खादति या या यावत्पर्यन्तस्य उदरस्य पूर्तिः भवति सः खादति यदा उदरं पूर्ति भवति तत् तदनन्तरं सः तद् न खादति पशु न खादति किन्तु मनुष्यः तस्य स्वादं यदि आगच्छति किञ्चित् खादति पुनः पुनः वारं वारं सः पुनः स्वीकरोति तत् वस्तुः तत् इति पशु आ, पशूनां अपेक्षा अधौ अस्ति म मनः तत मनुष्यः तत् मनुष्यः कारणकी पशुधर्म अपि न चालन् प्रति चलति तस्य अधं तस्य गच्छति तत् मनुष्यः इति अस्माकं मनुष्यधर्म यत् अस्ति तत् वयं तत् प्रति प्रचलन् अस्माकं भवेत् इति अस्माकं जन्म अभवत् अस्माकं मनुष्यजन्म बहु क्लिष्ट बहु अमूल्यधर्म अस्ति अमूल्यजन्म भवति बहु जन्मानन्तरं वयं मनुष्यस्य जीवनं प्राप्नुमः तस्य प्रयोग समीचीनं करणीयम् इति अस्माकं लक्ष्यं भवति अस्माकं लक्ष्यम् अस्ति मनुष्यस्य लक्ष्यम् अस्ति परं पुरुषपरमात्मनः मेलनं तस्य साक्षात्कार करणीयं करणम् इति तस्य मनुष्यस्य लक्ष्यम् अस्ति किन्तु यदि तत् न करोति पशुवत् इति चलति आचरति तत्र मनुष्य जन्मस्य यत् जन्म जन्म अस्ति तद् व्यर्थं भवति इति आं भगिनि आं भगिनि बहु सम्यक् बहु सम्यक्तया उक्तवती आम, अस्माकं मनुष्याणाम् अत्यन्तं स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते इति अस्माभिः पूर्वमपि बहुवारम् उक्तमस्ति वाट् इस् वट् इस् मीनिङ्ग् आफ़् क्लियर्लि रिफ्लेक्टेड् कान्शियस्नेस् वि हव्टु अण्डर्स्टाण्ड् देट् तद् बहुवारं मया उक्तमस्ति यदा तत्र uh, किं uh, सरोवरे uh, चन्द्रस्य प्रतिबिम्बः यथा स्पष्टतया भवति सरोवरे यदा सरोवरे मलिनं नास्ति तत्र सरोवरः कलुषितः नास्ति तदानीं चन्द्रस्य प्रतिबिम्बः यता, स्पष्टतया दृश्यते तथैव मनुष्यस्य मनः द मैण्ड् इस् अ रिफ्लेक्टिङ्ग् प्लेट् तस्मिन् मनसि यदा दोषाः मलाः न सन्ति मनः शुद्धं भवति तदानीं परमात्मनः परमपुरुषस्य स्पष्टतया प्रतिबिम्बः भवति तदेव तत्र योगः इति वयं वदामः खलु तर्हि तदर्थं तत्र मनुष्याणां तादृशसामर्थ्यमस्ति मनुष्येषु चैतन्यं स्पष्टतया प्रतिबिम्बितम् अस्ति वयं वयं न जानीमः वयं तु अस्माकं मनः तु कलुषितमस्ति इति कृत्वा वयं ज्ञातुं न शक्नुमः तत्र परमात् परमपुरुषस्य चैतन्यं स्पष्टतया प्रतिबिम्बितम् अस्ति इति एतादृशी शक्तिः अस्ति अस्माकं तर्हि तस्य उपयोगः अस्माभिः करणीयः खलु शक्तिः अस्ति इत्युक्ते अस्माकं सामर्थ्यम् अस्ति वि आर् इवन् मोर् वि आर् बेटर् वर्जन् आफ़् दि तर्हि अस्माकं बहु सामर्थ्यं वर्तते तर्हि सामर्थ्यस्य उपयोगम् अकृत्वा पशुव्यवहारं कुर्मः चेत् कोलाभः तर्हि तत्र अस्माकं सामर्थ्यस्य उपयोगः न भवति खलु तर्हि किमर्थं सामर्थ्यं दत्तमस्ति परमात्मना इति प्रश्नः आयाति अनया शक्त्या यद्वयं भवितुम् अर्हामः यादृशसामर्थ्यमस्ति अस्माकं तद्वयं भवितुं शक्नुमः यदा तस्य प्रयोगः क्रियते अन्येषां सर्वेषां प्राणिनां स्वधर्म आचरणं विना अन्यः विकल्पः नास्ति तत्र बिडालः अस्ति चेत् सः बिडालधर्मस्येव अनुसरणं करोति बिडालः शुनकः एव आचरितुं न शक्नोति शुनकः शुनकः यः अस्ति सः शुनकवत् आचरति सः बिडालवत् आचरितुम् आचरितुं न शक्नोति गजः गजः एव व्यवहर् वृक्षः वृक्षः एव व्यवहरति इति इति कृत्वा सर्वेषां सर्वेषां तत्र स्वधर्मः वर्तते तेषां कृते स्वधर्म आचरणं विना अन्यः विकल्पः नास्ति परन्तु मनुष्याः एव तादृशजीवाः सन्ति येषु तत्र विकल्पः वर्तते मनुष्याणां विकल्पः वर्तते तत्र अहं मानवधर्मस्य आचरणं करोमि नो चेत् पशुधर्मस्य आचरणं करोमि वा इत्यत्र विकल्पः अस्ति तत्र तस्य स्वेच्छा वर्तते इत्युक्ते तत्र मनुष्याणां धर्मः अनन्तेषणा इति अत्र उक्तं मनुष्य तादृश तादृश अनन्तेषणा तादृशी अनन्तेषणा एव विलक्षणः धर्मः अस्ति मनुष्येषु मनुष्येषु इतोपि अन्यः अपि विलक्षणः दर धर्मः अस्ति सः अस्ति स्वतन्त्रेच्छा स्वतन्त्रेच्छा अस्माकम् स्� इच्छा अस्ति अस्माकं विकल्पः अस्ति मनुष्यधर्मस्य पालनम् अथवा पशुधर्मस्य पालनम् अनयोः मध्ये अस्माकं विकल्पः अस्ति अयं तु बहु महत्त्वपूर्णः विषयः अस्ति एतादृश स्वतन्त्र इच्छा अन्येषां जीवानां नास्ति तर्हि अयमेव मनुष्याणाम् अपि च अन्यजीवानां महत्त्वपूर्णः भेदः अस्ति इत्युक्ते तत्र यः यह, यः मनुष्यः अस्ति अपि च अन्यजीव अन्ये जीवाः यः कोऽपि जीवः भवतु नाम इत्युक्ते कीटः भवतु सूक्ष्मातिसूक्ष्मजीवः अपि भवतु अथवा पशवः भवतु मत्स्यः भवतु यः कोऽपि भवतु नाम मनुष्यस्य अपेक्षया पशूनाम् अनयोः मध्ये अयं विलक्षणः महत्त्वपूर्णः भेदः अस्ति तेषां सर्वेषां विकल्पः नास्ति स्वतन्त्रेच्छा नास्ति तेषां ते, ते, ते स्वधर्मस्य आचरणं तैः करणीयमेव तेषां विकल्पः नास्ति परन्तु यदि तत्र भवन्तः कश्चन कञ्चनं पश, पक्षिनं पक्षिणं पश्यन्ति तत्र कश्चन पक्षी अस्ति तं यदा वयं आ, वयं पश्यामः तदानीं वयं स्पष्टतया ज्ञातुं शक्नुमः तत्र पक्षी किं करोति इति वयं ज्ञातुं शक्नुमः यदा कोऽपि नास्ति तदानीं पक्षी आगत्य भोजनं खादति यदा अस्ति चेत् झटिति गच्छति वयं पूर्वं पूर्वमेव अनुमानं कर्तुं शक्नुमः पक्षी कथं व्यवहरति इति वयं ज्ञातुं शक्नुमः यदा जनाः सन्ति तदानीं पक्षी भीतः भवति तर्हि पक्षिणा उड्ढीयते इति एतत् सर्वं वयम् अवगन्तुं शक्नुमः यतोहि तत्तु तत्तु तस्य स्वभावः अस्ति खलु पक्षिणः स्वभावः अस्ति पक्षिः यथा व्यवहर् पक्षिणा यथा व्यवहर्तव्यं तथैव पक्षी पक्षिः व्यवहर व्यवहर व्यवहरति खलु तत्र अपवादः नास्ति विकल्पः नास्ति इति प्रीडिसैन्ड् तस्य स्वभावः प्री डिसैन्ड् अस्ति परन्तु मनुष्याणां कृते मनुष्यत्वस्य बलेन अस्माकं विकल्पः अस्ति अहं किं भवितुम् इच्छामि अहं मनुष्यः भवितुम् इच्छामि वा अहं पशु भवितुम् इच्छामि वा इत्यत्र अस्माकं विकल्पः अस्ति परन्तु वयं किं पश्यामः मनुष्यः पशुः इव आचरति यतोहि किमर्थं तथा करोति इति चेत् तदेव तत्र ज्ञातमार्गः अस्ति पूर्वनिर्धारितः अस्ति मार्गः अतीवपरिचितः मार्गः अस्ति युगान्तर युगान्तरपर्यन्तम् अस्माकं बहु बहुवारं जन्म अभवत् खलु अतः अस्माभिः एतादृशजीवनं पूर्वमपि यापितम् इति कृत्वा परिचिप्तम् अस्ति इति कृत्वा वयं तु सर्वे तत्र लौकिकवस्तुभ्यः लौकिकजीवनस्य भौतिकसंसारे एव वयं क्षिपामः तस्य विषये एव चिन्तनं कुर्मः ततः ऊर्ध्वगतेः विषये वयं न चिंतन, चिन्तनं कुर्मः अतः अत्र अस्ति यत् मनुष्याः पशुवत् व्यवहरन्ति पशवः तु पशुवत् वर्तन्ते परन्तु पशवः पशुवत् वर्तन्ते तस्य अपेक्षया मनुष्याः पशुवत् वर्तन्ते इत्यत्र महत्त्वपूर्णभेदः अस्ति पशवः पशुवत् वर्तन्ते किमर्थं चेत् तेषां विकल्पः नास्ति तदेव तैः करणीयं परन्तु अस्माकं तु तत्र शक्तिः अस्ति अस्माकं विकल्पः अस्ति अतः वयं मनुष्यः इव व्यवहर्तुं शक्नुमः अथवा पशुः इव व्यवहर्तुं शक्नुमः वयं किं कर्तुम् इच्छामः इति तस्य निर्णयः अस्माकं हस्ते अस्ति परन्तु मनुष्यः मनुष्यैः पशुवत् व्यवहारः करणीयः इति नास्ति तस्माकं तस्मात् अपि अधिकं वयं कर्तुं शक्नुमः तादृशसामर्थ्यम् अस्माकं वर्तते तर्हि यदि तत्र मनुष्यः इव वयं व्यवहारं न कुर्मः तदानीं वयं पशुभ्यः अपि अधमाः भवामः अधमाः विल् बि लोवर् देन् दि एनिमल्स् विल् बि वर्स् देन् दि एनिमल्स् यतोहि पशूनां तु विकल्पः नास्ति अस्माकं सविधे तु विकल्पः अस्ति विकल्पः अस्ति चेदपि वयं तस्य उपयोगं न कुर्मः खलु इति कृत्वा वयं पशुभ्यः अधमाः भवामः कपिः कपिवत् आचरति चेत् तस्य तस्य दोषः नास्ति यतोहि तस्य विकल्पः नास्ति परन्तु यदि मनुष्यः पशुवत् कार्यं करोति तर्हि तत्तु मनुष्यस्य कृते अयुक्तम् युक्तं नास्ति इत्युक्ते ते पशुभ्यः अपि दुष्टतराः भवन्ति अधमाः भवन्ति ते तत् स्वस्य आत्मनः अवनतिं कुर्वन्ति दे ब्रिङ्ग् डौन् देयर् दे डीग्रेट् देर् आत्मा तथा च तत् तदेव तत्र तदर्थमेव वयं वारं वदामः मनुष्यः पशुरूपेण वर्तते बाह्यरूपेण मनुष्यः अन्तः तु पशुः इति वयं वदामः यः मनुष्यः पशुमार्गे गच्छति तं प्रति एवं न वदामः भवान् मनुष्यरूपेण पशुः अस्ति इति न वदामः परन्तु केवलम् अस्माकम् अवगमनार्थमेवम् अत्र उक्तम् उक्तमस्ति इत्युक्ते अस्माकं कर्तव्यं किम् अस्ति अस्माकं कर्तव्यं स्वयं स्वजीवने योगनिष्ठजीवनस्य पालनम् अस्माभिः स्वयं स्वजीवने करणीयम् अपि च अन्येषाम् अन्येषां मनुष्याणाम् अपि प्रोत्साहनम् अस्माभिः करणीयम् तेषामपि आकर्षणं करणीयं ते यतोहि वयं प्रयत्नं कुर्मः अपि च अन्येषामपि तत्र साहाय्यम् अस्माभिः करणीयमस्ति एतदस्माकं कर्तव्यमस्ति खलु परन्तु तेषां तेषां सविधे गत्वा ते वयं न वदामः भवान् पशुः अस्ति मनुष्यरूपेण इति तथा न वदामः परन्तु तेषां साहाय्यं वयं कुर्मः तेषां वर्धनार्थं तेषां मानसिकवर्धनार्थं देर् एलिवेशन् आफ़् देर् मैण्ड् वयं सहायं कुर्मः स्वजीवने अपि यत्न यत्नः अस्माभिः करणीयः परन्तु अन्येषामपि अस्मा अस्माभिः सहायं करणीयम् अवश्यं करणीयम् अस्ति तस्मिन्नेव वयं प्रयत्नशीलाः भवेम तदस्माकं कर्तव्यमस्ति अन्येषाम् उन्नयनम् अस्माकं दायित्वमस्ति यतोहि अस्माकं लक्ष्यं किम् आत्ममोक्षः अपि च जगतः हितम् इति अपि अस्माकम् अपेक्षितमस्ति जगत् नास्ति इति वयं न जगत् अस्ति जगति ये ये जीवाः सन्ति तेषां सर्वेषाम् अस्माभिः सहायं करणीयम् इत्युक्ते वि वि से देट् वि हेव् टु डु सर्विस् टु द सोसैटि वि हेर् टु सर् द ह्युमानिटि वि हे टु सर्व् आल् द बीयिङ्ग्स् ऐट् सो पीपल् से देट् यु नो ऐ डोण्ट् हेव् टैम् मम पार्श्वे समयः नास्ति इति इत्युक्ते तदर्थं uh you know i have to go to a job from 9 to 7 or 8 or whatever it is i don't have any time at all when i come back i have other things that i have to take care of so i don't have time so tatra byim kim kartum shaknu mah eto hi tatra you know there are birds outside even if you keep little bit of seeds or something for the birds so that they can eat on it that is also a seva that is also bhuta seva so when when you have the intention of the seva bhavana then you can always figure out what kind of seva i want to do right it does not necessarily have to be you serving only human beings you can also serve you know the insects uh, uh, you know birds animals you can serve a, any being uh, on this on this earth right so that is all the seva so that seva bhavana you should have right yah uh, sadakah asti yogana shivine sadakah asti saha pratidinam kimapi tatra pratidinam saha seva karoti eva ah sevam karoti saha pratidinam karoti यतोहि तदानीमेव यदा वयं सेवां कुर्मः तदानीमेव अस्माकं मनः वर्धते तदर्थं तत्र स्वार्थभावना अपगच्छति यदि वयं सेवां न कुर्मः तदानीं तत्र सर्वत्र ममकारः भवति एतद् एतदपि मम एतदपि मम एतदपि मम इति तादृशी भावना भवति अतः सेवा बहु बहु बहु मुख्या अस्ति यावत् वयं सेवां कुर्मः वयं द्रष्टुं शक्नुमः मम मनः वर्धते इति वयम् अहं स्वयं साक्षात्कर्तुं शक्नोमि यदा अहं सेवा करोमि सेवां करोमि तदानीं मम मम मनः वर्धते इति वयं स्वयम् अनुभोक्तुं शक्नुमः अतः सर्वैः तत्र यत्नः करणीयः सेवा सेवाविषये इत्युक्ते तत्र अपि च अन्यदपि वक्तव्यं यत् यदा वयम् अन्येषां साहाय्यं कुर्मः तदानीं वयं पश्यामः यः यः यः मनुष्यः अस्ति तस्य कृते अहं वदामि किमपि परन्तु सः तस्य ग्रहणं न करोति परन्तु सः इतोपि पशुव्यवहारे एव व्यस्तः अस्ति सः अवगन्तुं न शक्नोति यद् अहं वदामि इत्युक्ते तादृशसन्दर्भे अस्माभिः द्रष्टव्यं यत् तेन सह मम व्यवहारेण मम अवनतिः भवति चेत् तदानीं तत्र समयस्य यापनं मास्तु यतोहि तस्य उन्नतिः न भवति इफ् वि केन् एलिवेट् दि अदर् पर्सन् देन् बि एङ्गेज् इन् देट् if we are seeing that, that the person is not elevating but he is actually bringing our uh, degradation of our mind then we don't engage in that activity right so we we are only here to help others if we are able to elevate other person yes we will do that but if if that is not possible and that person is not having any interest tadani mayam tatra samayasya yapanam nakurmah etohi asmakam jivanam bahu laghu asti kalu ataha samayasya sadupyogah smadhi karaniya अस्माकं मनः सर्वदा सकारात्मकः सकारात्मकं भवेत् शुड् आल्वेस् बि पासिटिव् अवर् मैण्ड् शुड् आल्वेस् बि पासिटिव् इट् शुड् नेवर् बिकम् नेगेटिव् सो एनिथिङ्ग् दट् इस् क्रियेटिङ्ग् दट् नेगेटिविटि वि शुड् बी स्टेङ्ग् अवे फ्रम् देट् रैट् वाट् एवर् इट् मैण्ड् बि रैट् सो यत्किमपि तत्र नकारात्मकभावं नकारात्मकभावं जनयति तस्मात् अस्माभिः अन्यत्र अस्माभिः गन्तव्यम् इति अस्ति इति अहम् अत्र वक्तुमिच्छामि अपि च अयम् अनुच्छेदः अस्माकम् अवगमनार्थम् अस्ति अस्माकं स्वजीवने टु डू द इन्ट्रास्पेक्षन् टु डू द सेल्फ़् अनालिसिस् एण्ड् अण्ड् फार् अर् ओन् रिफ्लेक्षन् एस् डु हौ वि केन् मेक् अवर् लैफ़् बेटर् तस्मिन् विषये अत्र उक्तम् अस्ति कोपि प्रश्नः अस्ति वा एतावता यद् यदुक्तम् अस्तु तर्हि किञ्चित् अग्रे गच्छामः अग्रिम अग्रिमपरिचयः तत्र किं सरिता भगिनी भवती पठितुमिच्छति वा आं भगिनि अस्तु संस्कृतेन पठति वा आङ्ग्लभाषायां पठति वा संस्कृतेन अनन्तस्य अन्वेषणम् अथवा ब्रह्मणः साक्षात्कारः चैतन्यस्य स्वभावः अस्ति केवलम् ये मनुष्याः चैतन्यस्य उपयोगम् कृत्वा तस्य आदेशान् च पालयन्ति ते एव मनुष्याः इति वक्तुम् अर्हाः अतः प्रत्येकम् मनुष्यस्य स्वस्य प्रतिबिम्बितचैतन्यस्य सम्पूर्णप्रयोगेण मानवः इति सम्बोधानाः सम्बोधानाशत्वम् अर्जयति सः च मनुष्यः पश्यति यत् स्वस्य अथवा स्वस्याः धर्माः वा स्वभावः केवलम् अनन्तस्य ब्रह्मणः अन्वेषणम् एव ब्रह्मप्राप्तेः एषा एव मनुष्याणाम् सहज वा गुणः वा, वा अस्ति सः एव मनुष्याणाम् मनुष्यत्वस्य लक्षणम् भवति भगिनी अवगतं वा अवगतं वा अग्रेण अत्र यद् पठितं तद् अवगतं चेत् किञ्चित् प्रतिपादयतु मनुष्यजीवने अनन्त एषा वर्त वर्तते तत, आ, तत्र तस्य अन्तर्क अन्तःकरणे अनन्तं प्रति एषणा निहिताः सन्ति तस्य अन्वेषणम् एव मनुष्यस्य परमधर्मः चैतन्यस्य सम्पूर्णप्रतिबिम्बं मनुष्यस्य अन्तर्खण्डे एव प्रकाशते यः मनुष्यः न जानाति किन्तु तस्य प्रति अन्वेषणं कर्तुम मनुष्यपरम धर्म यदि कोप अन्व तुष्य तर, जन्म व्यर्थम ग्छति सह पशु साम पृथ्वी आचर Uh, brahmanam itipte uh, supreme consciousness to attain that supreme consciousness is the only goal of human life hmm some like beginning sarajna kim pian net lok sarama um That इस् really nicely said भगिनी बहु सम्यक् Samyak त्यक्तवती Samyak, samyak. बहु सम्यक् अस्ति इत्युक्ते अत्र मानवधर्मः बहु सरलः अस्ति इत्युक्ते तत्र काठिन्यम् इति किमपि kaha धर्मः कः इति तु सरलं सरल सरलः अस्ति सरल, सरल धर्मः परन्तु तथापि मानवस्य कृते बहु बहु कठिनमपि अस्ति खलु धर्मः कः इत्युक्ते तदर्थमेव अस्माकं वर्गेषु वारं वारं वयं वदामः मनुष्यस्य धर्मः कः धर्मः कः धर्मः कः इति प्रतिसप्ताहे वयं वदामः परन्तु वयम् अवगच्छामः वा कदाचित् चिन्तयन्तु वयम् अवगच्छामः अस्माकं धर्मः कः इति यदा अत्र वयं वर्गे स्मः तदानीं वयं शृण्मः ओ धर्मः तदानीम् अवगमनम् अस्ति इव भाति परन्तु यदा वयम् अन्यत्र अन्यविषये वयं गच्छामः तदानीम् एतत् सर्वं विस्मरणम् अस्य विस्मरणं जायते खलु यत् श्रुतं तस्य विस्मरणं जायते तदानीं तु मनुष्यधर्मः कः इति न जानीमः तदर्थम् अत्र वारं वारं वयं वदामः येन अस्माकम् अवबोधः स्यात् यत् अस्माकं लक्ष्यं किं जीवनस्य लक्ष्यं किम् इति बोधः स्यात् यतोहि अत्र यदा तत्र अन्यत्र वयं गच्छामः तदानीं विस्मरणं भवति तद् अस्माकं मनसि न तिष्ठति तत्र धर्मः कः अस्माकं लक्ष्यं किम् इति यतोहि तत्र अस्माकं लक्ष्यं तु अन्यते एव इति वयं चिन्तयामः लौकिकवस्तु अथवा भौतिकविचारः एव अस्माकं लक्ष्यम् इति वयं चिन्तयामः परन्तु अस्माकम् अस्माभिः गाढतया अवगन्तव्यं यत् अस्माकं धर्मः कः इति सामान्यसमाजे इत्युक्ते गाढतया अस्माभिः अवगन्तव्यं धर्मः कः इति सम्यक्तया अस्माकम् अस्माकं मनसि तद् स्थापनीयम् अस्ति सामान्यतया तत्र लौकिकसमाजे सामान्यसमाजे अथवा तत्र धार्मिकक्षेत्रेषु यदा वयम् एतादृशी परिभाषा वयं कुत्रापि न प्राप्नुमः धर्मः कः इति सम्यक्तया न प्राप्नुमः एतादृशविचारः न प्राप्नुमः अयं विचारः सार्वत्रिकः अस्ति धर्मः कः इति सार्वत्रिकः अस्ति मम धर्मः भिन्नः भवत्याः धर्मः भिन्नः इति नास्ति सर्वेषां मनुष्याणाम् ना एकः एव धर्मः अस्ति सः धर्मः अस्ति अनन्तेषणा तु सीक् uh, दट् इन्फैनैट् right? तादृशधर्मः इट् इस् बियाण्ड् टैम् प्लेस् एण्ड् पर्सन् एण्ड् वितौट् एनी लिमिटेशन्स् सः धर्मः समानः अस्ति स धर्मः तस्य तस्य धर्मस्य सीमा नास्ति कालाधारेण स्थानाधारेण व्यक् व्यक्तेः आधारेण तस्य सीमा नास्ति धर्मस्य सीमा नास्ति तर्हि तत्र लोके तु तत्र धर्मः इत्युक्ते जातिरूपेण वयं वदामः अथवा तत्र स्वशरीरस्य यः वर्णः अस्ति तस्य आधारेण वयं अथवा मम चर्म कथमस्ति तदाधारेण वदामः अथवा भाषाया या भाषा यां भाषामहं वदामि तदाधारेण वयं वदामः परन्तु तथा नास्ति धर्मः तु एकः अस्ति तत्र सर्वे मनुष्याः एकः एव सर्वे मनुष्याः एकः एव यद्यपि वयं यस्मिन् कस्मिन्नपि देशे वयं भवामः भारते भवामः अथवा अमेरिकायां भवामः अथवा लण्डन् नगरे व वसामः अथवा यत्र वसामः परन्तु तत्र यद्यपि बाह्यरूपेण भेदाः दृश्यन्ते परन्तु वयं सर्वे अपि मनुष्याः एव अस्माकं वयं सर्वे एकः एव अस्माकं लक्ष्यं सर्वेषां लक्ष्यम् एकमेव अस्ति तर्हि यदि तत्र विश्वे जनाः एतत् तथ्यम् अवगच्छन्ति चेत् तदानीं तत्र Uh, तत्र युद्धं न भवति कुत्रापि युद्धं न भवति सर्वत्र शान्तिः एव भवति जनाः एतत् न अवगच्छन्ति एतत् तथ्यं न अवगच्छन्ति इति कृत्वा जनाः तत्र आ, परस्परं युद्धं कुर्वन्ति तर् तत् तत्तु निरर्थकमस्ति निरर्थकयुद्धं युद्धस्य आवश्यकता एव नास्ति बहुत्र अद्यत्वे अद्यत्वे समाजे बहुत्र युद्ध युद्धस्य विचार युद्धस्य समाचारः अस्माभिः श्रूयते युद्धसमाचारः अस्माभिः श्रूयते परन्तु यदा एतादृशी शिक्षा सर्वेषां भवति तदानीं युद्धं कदापि न भवति अयं तु गहनः विषयः अस्ति यदि सर्वैः अवगम्यते अयं विचारः तदानीं लोके कुत्रापि युद्धं न भवति लोके सर्वत्र शान्तिः एव भवति यतोहि वयम् अवगन्तुं शक्नुमः मम लक्ष्यं भिन्नं नास्ति भवत्याः लक्ष्यं भिन्नं नास्ति मम लक्ष्यं यदस्ति तदेव भवत्याः लक्ष्यमपि अतः वयं किं कुर्मः परस्परं साहाय्यं कुर्मः ओके भवती आ, भवती लक्ष्यस्य प्राप्त्यर्थं भवत्याः कृते किं अपेक्षितं किं साहाय्यम् अपेक्षितं तद् अहं करोमि मम कृते किम् अपेक्षितं तद् भवती, की भवती करोति इति एवं रीत्या समाजः अस्ति चेत् कियत् तत्र सुन्दरं भवति खलु तत्र परस्परं भेदः भवति तर्हि अत्र किम् अवगच्छ अवगच्छ इति चेत् मनुष्यस्य लक्षणं सार्वत्रिकम् अस्ति तत्र लोके ये ये भेदाः सन्ति जातिवादः वा समूहवादः वा कुलस्य आधारेण वा अत्र कुत्र देशे वसामः तदाधारेण वा एतत् सर्वं तत्र लघुचेतः तत्र लघुचिन्तनम् लघुचिन्तनमस्ति अस्माभिः तादृशचिन्तनं न करणीयम् अस्माकं चिन्तनं विस्तारः भवेत् वयं वदामः वसुधैवकुटुम्बकम् इति वयं वदामः तद्वयम् अवगच्छामः वा तत्र हृदये अवगच्छामः वसुधैवकुटुम्बकम् इत्यस्य अर्थः कः इति वयं हृदये अवगच्छामः वा हृदये अवगन्तव्यम् वसुधैवकुटुम् कुटुम्बकम् समत्वं सर्वत्र समबुद्धिः भवेत् सर्वत्र यः कोऽपि भवतु तत्र उच्चनीचविचारः मा भवतु इत्युक्ते यः कोऽपि यः तत्र ईवन् अस्ति स्वीपर् द रोड् तस्य कृते यः तत्र मार्गे मार्जालनं करोति तत्र तस्य कृते अपि अस्माकं व्यवहारः समानः भवेत् यः उच्चपदव्याम् अस्ति तस्य कृते अपि अस्माकं व्यवहारः समानः भवेत् किमर्थं चेत् अस्माकं सर्वेषां धर्मः एकः एव इति अस्माभिः सम्यक्तया अवगन्तव्यम् एत एतादृशविचारेण अस्माकं मनः वर्धते मनः सर्वदा वर्धते कदापि अधः न पतति अहम् उच्चः भवति अधः अस्ति इति तादृशविचारः कदापि न भवेत् अस्तु इतः अग्रे किञ्चित् गच्छामः तत्र अस्तु प्रिया भगिनी पठितुमिच्छति वा आं भगिनि स्वेच्छया किल आमां स्वेच्छायाः स्वेच्छायाः परिपूर्त्या आनन्दः लभ्यते यदिष्टं तन्न लभते यत् इष्टं तत् न लभते तन्न लभते चेत् मनुष्यः आनन्दी न भवति सः मनुष्यः दुःखिः खिन्नः च भवति मनुष्येषु विद्यमानं स्पष्टं प्रतिबिम्ब प्रतिबिम्ब प्रतिबिम्बितचैतन्यम् एव जनानां पशुभ्यः पृथक् करोति येन मनुष्यः तद् ब्रह्म अथवा अनन्तम् अन्विषति तथा च जनाः सदैव वास्तविकम् आनन्दम् प्राप्नुवन्ति यदा ते ब्रह्म प्राप्तुम् शक्नुवन्ति अथवा तस्य प्राप्तिप्रक्रियायाम् प्रविशन्ति चैतन्यम् लौकिकपदार्थात् आनन्दम् नेच्छति यतः एते सर्वे परिमितपदार्थाः ब्रह्म ब्रह्म तोषयितुं न शक्नुवन्ति मनुष्याणाम् धर्मः अनन्तस्य परब्रह्मणः प्राप्ति एव इति निगमनम् वयम् प्राप्नुमः अनेन धर्मेण एव मनुष्याः शाश्वतसुखम् आनन्दम् च भोक्तुम् शक्नुवन्ति सो मम यदा वयम् मम इच्छः किञ्च अपि भवतु परिपूर् परिपूर्ण परिपूर्णं कृत्वा आनन्दं लभ्यते किन्तु तत् आनन्दं तु बहु समयं न तिष्ठति बहु लघु आनन्दम् एव तत् सो so, uh, यदा तत् uh, किन्तु यदा न लभते चेत् uh, मनुष्यः बहु खिन्नः जातः अतः मनुष्यः दुःखी खिन्नः भवति यदा सः किम् इच्छति तत् न प्राप्तवान् चेत् सः बहु खिन्नः दुःखी भवति सो यदा वयं मनुष्येषु विद्यमानं प्रतिबिम्बचैतन्यम् एव जनान् पशुभ्यः प्रतिबिम्बचैतन्यम् एव पृथक् करोति मनुष्यः तु प्र, चैतन्यस्य प्रतिबिम्बं मनुष्ये चैतन्यस्य चा, प्रतिबिम्बम् अस्ति पशु आ, पशौ तत् नास्ति मनुष्येषु तत् अस्ति पशुषु तत् न दृष्टमस्ति तदेव पशुभ्यः मनुष्यान् मनुष्यान् पृथक् करोति मनुष्यः सर्वदा ब्रह्म अन्वेषणं करोति किन्तु तत् न जानाति अपि किं च लब् किं च प्राप्तव्यं किं च लभेति चेत् अहम् आनन्दं भवामि इति चिन्तयित्वा बहवः बहवः वस्तु वस्तु ते प्राप्तुं प्रयत्नं करोति किन्तु यदा अनन्तान्वेषणं करोति चेत् वास्तविक आनन्दं तत्र एव प्राप् प्राप्तुं शक्नोति इति जनाः न जानन्ति यदा किञ्चित् अपि अनन्तावेशनस्य आनन्दं तिलः तिलः मुखम् इव किञ्चित् प्राप्नोति चेत् तस्य आनन्दम् अप इति ज्ञात्वा तदैव अन्वेषणं करोति मनुष्यः भगिनि सम्यक् सम्यक् उक्तवती इतोपि वक्तव्यं वा तदेव सो अतः मनुष्याणां धर्मः अनन्ताय अनन्त एव किन्तु ते सर्वे यत् निजं यत् सत्यं यत् न सत्यम् अपि न जानन्ति तद् सत्यं यत् अस्ति तद् अनन्ताय अनन्तेशनम् अनन्त अनन्तेशनम् एव सत्य आनन्दम् आनन्दम् आनन्दम् अस्ति सर्वं निजं नास्ति असत्यम् अस्ति न्यूनम् अस्ति समयमपि कालः बहु न्यूनसमयमेव आनन्दं भवति अनन्त अनन्तेषणम् एव बहुकालं सर्वदा आनन्दं ददाति तदेव ओके अच्छा ओके बहु बहु सम्यक् भगिनी धन्यवादः यस् तथैव अस्ति तदेव विचारः अत्र अस्ति इत्युक्ते तत्र मनुष्याणां मनुष्याणाम् इति एव न यः यः कोऽपि जीवः भवतु यदिष्टं तत् प्राप्यते चेत् तदानीं सुखं सुखं भवति खलु यदिष्टं तद् न प्राप्यते चेत् तदानीं सः भवति न भवितुं शक्नोति इति सार्वत्रिकः नियमः अस्ति यः कोऽपि जीवः भवतु नाम तादृशदर्व तादृश विचारः मनुष्येषु अपि प्रवर्तते अत्र अत्र मनुष्यस्य मनुष्यत्वस्य बलेन मनुष्य मनुष्यत्वम् इति या या शक्तिः अस्ति तस्य बल तस्य बलेन पुरुषः अनन्तम् इच्छति परिमितवस्तुभ्यः सः तृप्तः न भवितुम् अर्हति अतः अत्र यदुक्तं तस्य तात्पर्यम् अस्ति यत् वयं तत्र मनुष्यस्य धर्मः अस्ति खलु तदाधारेण वयम् अनन्तमेव इच्छामः वि सीक् दट् इन् फैनैट् किन्तु मानवेषु बहु बहवः स्वजीवने अनन्तस्य अन्वेषणे न प्रवृत्ताः खलु अतः ते सुखिनः भवितुं न अर्हन्ति अथवा ते सुखिनः भवितुं न शक्नुवन्ति इति निष्कर्षः इत्युक्ते अहं किमपि बाह्यवस्तु वस्तु अहम् इच्छामि इच्छामि तत् प्राप्यते चेदपि अहं सुखी न किमर्तम किमर्थम् इति चेत् वस्तुतः अहं वस्तु न इच्छामि एव यद्यपि अहं बाह्यवस्तु इच्छामि इव इति भाति परन्तु वस्तुतः अहं वस्तु न इच्छामि यदि इच्छामि तर्हि तत् प्राप्त्यनन्तरम् अहं सुखी भवे भवेम परन्तु अहं तदानीं सुखी इति न अनुभवामि खलु सुखी अनुभवामि तदर्थं वयं ज्ञातुं शक्नुमः यत् वस्तुतः मया तत्र बाह्यवस्तु न इष्यते एव मम तु अनन्तेषणा वर्तते यावत्पर्यन्तम् अनन्तप्राप्तिः न भवति तावत्पर्यन्तं मम निरन्तरसुखं न भवति क्षणिकसुखं न निरन्तरसुखम् अहम् इच्छामि वस्तुतः निरन्तरसुखमिच्छामि परन्तु अहं चिन्तयामि अहं क्षणिकसुखमिच्छामि इति विचिन्त्य अहं बाह्यवस्तोः वस्तुनः पृष्ठतः अहं दावामि परन्तु वस्तुतः वास्तविकं किम् इति चेत् अहं निरन्तरसुखम् इच्छामि तादृशनिरन्तरसुखम् कदा भा प्राप्यते इति चेत् अनन् अनन्तद्वारा अनन्त एव प्राप्यते निरन्तरं सुखम् एतदेव सत्यमस्ति तत्र जनाः स्वस्य सम्पूर्णजीवनं ते सुखिनः इति दर्शयितुं ते प्रयतन्ते खलु परन्तु वस्तुतः ते सुखिनः न सन्ति इत्युक्ते अद्यत्वे वयं पश्यामः चेत् तत्र फेस्बुक् मध्ये ब बहवः जनाः स्वस्य चित्राणि स्व स्वचित्राणि छायाचित्राणि तत्र स्थापयन्ति खलु एवं प्रदर्शनार्थम् अहं बहु सुखी अस्मि मम परिवारे जनाः बहु सुख्या, तत्र किं सन्तुष्टाः सन्ति सर्वे प्रसन्नाः इति ते दर्शयितुं दर्श दर्शयितुं प्रयत्नं कुर्वन्ति खलु परन्तु वास्तविकं किम् इति चेत् वयं तेषां गृहं गच्छामः चेत् वयं ज्ञातुं शक्नुमः तत्र तत्र पिहितद्वारस्य पृष्ठतः अन्यत् किमपि एव प्रचलति यद् ते तत्र फेस्बुक् मध्ये न प्रदर्शयन्ति गृहे वस्तुतः तत्र वस्तुतः सर्वे दुःखिनः सन्ति तत्र तेषां मध्ये परस्परं किं क्लेशाः सन्ति समस्याः सन्ति कश्चन तत्र इत्युक्ते जीवने जीवने तत्र जीवितुमपि न इच्छत् इच्छति अथवा तत्र किं हस्बेण्ड् वैफ् मध्ये दम्पत्योः मध्ये तत्र वादः अस्ति विवादः अस्ति इत्युक्ते कश्चन तत्र विवाहविच्छेदम् इच्छति इति एवमपि भवितुमर्हति अथवा कश्चन विवाहविच्छेदमपि तेन प्राप्तम् इति अपि भवितुमर्हति अथवा तत्र छात्रः अस्ति चेत् सः सन्तुष्टः नास्ति यतोहि तस्य साफल्यं न लब्धं तत्र परीक्षायाम् इति एवं रूपेण तत्र ते स्वजीवनं सम्यक्तया प्रबन्धयितुं शक्नु न शक्नुवन्ति तर्हि तत्र तेषां कृते यदिष्टं तद् न लब्धम् अतः ते सुखिनः न सन्ति ते सर्वे दुःखिनः एव सन्ति इति कृत्वा तत्र इत्युक्ते सर्वेषां मनुष्याणां तत्र समस्याः सन्ति तदेव मूलभूता कथा परन्तु ते बहिः अन्यत् किमपि प्रदर्शयितुम् इच्छन्ति किमर्थं सर्वेषां समस्याः सन्ति इति चेत् किमर्थम् सर्वे अनन्तम् परन्तु ते न जानन्ति अन्यत् अन्यस्य पृष्ठतः धावन्ति इति कृत्वा तेषां सुखं कदापि न भवति जनाः सुखिनः न भवन्ति यतोहि वास्तविकता एषा यत् मानवः अनन्तपरिचयम् इच्छति परन्तु जनाः अनन्तपरिचय परिचयस्य अन्वेषणे न प्रवृत्ताः अतः ते सुखिनः कदापि न भवितुम् अर्हन्ति यतोहि ते यदिच्छन्ति तद् न प्राप्नुवन्ति खलु ते वस्तुतः अनन्तेन सह तादात्म्यम् इच्छन्ति अनन्तेन सह संयोगम् इच्छन्ति परन्तु ते तद् न अन्विषन्ति अन्यत् एव अन्विषन्ति तर्हि ते तद् न अनन्तं न अन्विषन्ति चेत् तर्हि कथं ते प्राप्तुं शक्नुवन्ति अतः ते दुःखिताः सन्ति च ते प्रयतन्ते किं सुखं प्राप्तुं प्रयतन्ते कस्मात् इति चेत् भोजनात् अथवा मद्यपानेन अथवा बहिः गत्वा अथवा सम्भाषणेन अथवा अन्यत्र यत्र गत्वा स्वदुःखस्य शमणं शमनं कर्तुं ते प्रयतन्ते तथा च ते दुःखस्य विस्मरणं कर्तुं प्रयतन्ते परन्तु सत्यं तु एतत् अस्ति यत् मनुष्य मनुष्यत्वधर्मः कः इति ते न अवगच्छन्ति ते वस्तुतः मानवाः सन्ति परन्तु मनुष्यत्वस्य धर्मः अनन्तेषण इति ते न जानन्ति तस्य कारणात् लौकिकवस्तुभ्यः का स्वयमेव किमपि प्राप्तुं सुखं प्राप्तुं अन्वेषणं कर्तुम् अन्वेषणं कुर्वन्ति तर्हि परन्तु बाह्यरूपेण ते प्रदर्शयितुम् इच्छन्ति इति अहं बहु अतिप्रसन्नः अस्मि इति प्रदर्शयितुम् इच्छन्ति इत्युक्ते एतादृशव्यवहारः किमर्थम् एतादृशव्यवहारः अस्ति लोके किमर्थं जनाः एवं कुर्वन्ति इति चेत् एतत् अस्माकं शिक्षा यादृशी शिक्षा अस्माभिः प्राप्ता लोकतः इत्युक्ते लोके ये जनाः सन्ति मेटीरियलिस्टिक् पूञ्जीपतयः तेभ्यः एतादृशी शिक्षा अस्माभिः प्राप्ता यत लोके एवं रीत्या प्रदर्शनीयं लोके तत्र एतानि यानि वस्तूनि सर्वं आडम्ब आडम्बरपूर्णानि भवेयुः अस्माकं वस्त्राणि आडम्बरपूर्णानि भवेयुः अस्माकं मुखं येन अप्लै लाट् आफ़् कास्मेटिक्स् एतादृशविचारः अस्ति बाह्यरूपेण इति कृत्वा तद्वत् तत्सर्वं दृष्ट्वा वयं तादृशं व्यवहर्तुं प्रयत्नं कुर्मः व्यवह व्यवहर्तुं प्रयत्नं कुर्मः परन्तु मनुष्याः तेभ्यः सुखं न प्राप्तुं शक्नुवन्ति तर्हि तत् प्रथमतया प्रथमतया अस्माभिः ज्ञातव्यम् अस्माभिः किम् इष्यते इति अस्माभिः ज्ञातव्यं प्रथमतया मम इच्छा इच्छा इति अस्माभिः ज्ञातव्यं यदि किम् इच्छति इति न जानाति तर्हि कथं तत् प्राप्तुम् अस्माभिः प्रयत्नं कर्तुं शक्नुमः जनाः न अवगच्छ अवगच्छन्ति यत् अनन्तेषणा अस्ति इति अतः कथं तां प्राप्तुं आ, ते प्रवृत्ताः भवेयुः खलु तद्ना न अवगच्छन्ति परन्तु तेषां पशुकामनाविषये तु ते सम्यक्तया अवगच्छन्ति पशुकामनायाः विषये बहु सम्यक्तया अवगच्छन्ति मनुष्याः अतः ते तान् इत्युक्ते ताः प्राप्तुं प्रयतन्ते तेषां कृते तदेव परिचितम् अस्ति यतोहि बहुकालात् अस्माभिः पशुव्यवहारः अस्माभिः कृतः इति कृत्वा तत् परि परिचितं परिचितमस्ति अतः पूर्वं बहूनि जन्मानि अस्माकम् आसन अतः स्वस्य सम्पूर्णजीवने जन्मतः मृत्युपर्यन्तं सर्वं समयं यापयन्ति लौकिकवस् वस्तुनः पृष्ठतः अनन्तस्य विषये आन्तरिक या इच्छा अस्ति ताम् इच्छां पूरयितुं ते कुर्वन्ति इति चेत् लौकिकपरिमितवस्तूनां माध्यमेन अनन्तेष्णायाः पूर्त्यर्थं ते प्रयतन्ते तर्हि यतोहि ते वास्तविकं न अवगच्छन्ति तर्हि तदर्थं किं वयं जानीमः तत् कार्यं न करोति यदा तत्र अनन्तेष्णायाः पूर्तिः लौकिकवस्तुभ्यः वयं पूरयितुं प्रयत्नं कुर्मः तदानीं तद् सम्यक् भवति तत्र साफल्यं न लभ्यते इति कृत्वा ते सुखिनः कदापि न भवन्ति सुखिनः कदापि न भवन्ति सर्वदा दुःखिनः एव भवन्ति तदेव कारणमस्ति यदा कश्चित् कश्चित् स्वस्मिन् स्पष्टतया प्रतिबिम्बितं चैतन्यम् अस्ति इति ज्ञात्वा स्वमनुष्यत्वेन न तु पशुत्वेन सः मनुष्यः तस्य धर्मः कः इति अवगच्छति तस्मिन् अनन्तेषणायां सः प्रवृत्तः भवति तदानीं सः सुखं प्राप्नोति तत्र परमचैतन्यं परमपुरुषः अस्माकं मार्गदर्शनम् अवश्यं करोति तदेव atra the cosmic entity that there is a purpose of the cosmic entity when jani maha yat asmin jagati yat kim api bhavati tad yadrichikam nasti nothing in this world is a coincidence it is not a coincidence that we are here in this class today it is not a coincidence that we took a birth it is not a coincidence that anything that is happening in your life nothing is a coincidence everything is happening according to a design karyakarana bhava anusare nayav sarvam bhavati sarvam kramena bhavati tad smavihi purvam api charchitam yat अत्र लोके सर्वं सुव्यवस्थितम् अस्ति यथा तत्र सूर्यमण्डलः नक्षत्राणि ग्रहाः यता यथा तत्र एते सर्वे अपि सुव्यवस्थिताः यथा सन्ति इति सुव्यवस्थिताः सन्ति इति कृत्वा वयम् अवगन्तुं शक्नुमः कश्चन अस्ति यः तस्य मार्गदर्शनं करोति एतादृशीं व्यवस्थां यः स्थापयति सः एव चैत् तदेव चैतन्यम् इति दृष्टं यथा गृहे प्रकोष्ठः अस्ति तर्हि तत्र प्रकोष्ठः स्वच्छः अस्ति चेत् वयम् अवगन्तुं शक्नुमः कश्चनात्र आगत्य स्वच्छीकरणं कृतवान् इति वयम् अवगन्तुं शक्नुमः तथैव लोके जगति सूर्यमण्डलः भवतु अथवा ग्रहः भवतु यत्किमपि भवतु तत्सर्वं सम्यक्तया सुव्यवस्थितम् अस्ति क्रमेण एतत् सर्वं गच्छन्ति इति दृष्ट्वा वयम् अवगन्तुं शक्नुमः यत् तस्य सर्वस्य पृष्ठतः परमपुरुषः वर्तते यः सम्यक्तया व्यवस्थापनं करोति इति वयम् अवगन्तुं शक्नुमः इति अत्र इति तत्र इत्युक्ते मनुष्यः ज्ञात्वा वा एव अनन्तमेव प्राप्तुम् इच्छति वास्तविकसुखमेव प्राप्तुम् इच्छन्ति तादृशसुखं तु परमपुरुषात् एव वास्तविकसुखं वयं प्राप्तुं शक्नुमः इति अत्र अन्य अन्यः अपि महत्त्वपूर्णविषयः अस्ति वयम् उक्तवन्तः अनन्तप्राप्तिः यदा भवति तदानीमेव सुखं भवति इति तथा नास्ति यः अस्मिन् योगनिष्ठ जीवने प्रवृत्तः अस्ति अनन्तस्य प्राप्तेः प्रक्रियायां यः प्रविष्टः अस्ति सः अपि आनन्दितः भवति वेन्यू एण्टर् एन् टु दिस् योगनिष्ठ जीवनं यु स्टार्ट् एक्स्पीरियन्सिङ्ग् ब्लस् इट् इस् नाट् दट् ओन्लि वेन्यू गेट् दि समाधि Uh, the, when you get the samadhi, that is when you get the happiness, it is not like that. When you enter into this life, into this yoga nishti jivanam, you start experiencing bliss because your mind starts elevating. Because everything that doing, you are doing, if you are doing this, you are doing the same thing as a human being. So, if you are doing this, you automatically start experiencing bliss. You know the value of everything in this world, right? If you are doing this, if you are doing this, if you are doing this, अपि च लोके ये जनाः सन्ति तेषां मूल्यं किम् इति जानीमः अस्माकं सर्वेषां लक्ष्यम् एकमेव इति वयं जानीमः तदानीं तत्र युद्धमपि न भवति गृहे भवतु बहिः भवतु तत्र युद्धं न भवति अस्माकं मानसिकः सङ्घर्षः अपि तत्र न्यूनः भवति अस्माकं मानसिकसङ्घर्षः न्यूनः भवति य यत्किमपि अस्ति लोके तत्सर्वं क्षणिकम् इति वयम् अवगन्तुं शक्नुमः इति अत्र मुख्यविषयः अस्ति अत्र यः अस्मिन् अस्यां प्रक्रियायां प्रविष्टः अस्ति योगनिष्ठजीवने सः तदानीमेव सुखम् आनन्दम् अनुभोक्तुम् आनन्दम् अनुभवति वस्तुतः आनन्दम् अनुभवति आनन्दं हि स्टार्ट्स् एक्स्पीरियन्स् इङ्ग् द ब्लेस् नैट् केवलं समाद् समाधि लभ्यते चेदेव इति नास्ति परन्तु वेन् हि एण्टर्स् दिस् नैट् यदा मानवधर्ममार्गे प्रवेशनं करोति तदानीमेव सः आत्यन्तिकं सुखं anandam praptnoti it is actually unbelievable right when you actually enter and experience that it, it's it's extremely beautiful it's extremely beautiful yada ananta sy saakshaatkara atm yasmin margaveyam gachchamah saha margah eva ativ sundaraha margah asti tatra manushyasya astitvasyas swasya spandane sampurna parivartanam bhavati tarhi yada parivartanam bhavati then you experience shaantihi daso o mishanti shanti shanti shanti that shanti you experience right your your life becomes very very peaceful uh, shanti hi bhavati ananda bhavati iti atra bahu mukkya visaya asti uh, yasmin dine kascana tat jivane jivanam aarambate tasmineva divane jivane tasya sampurna tay parivartanam tasma divana eva parivartanam bhavati yadasaha swadharma sya anusaranam aarambate tadanin tatra tasya gahana प्रभावः भवति तस्य स्वस्य अन्ते यः पशुधर्मः अस्ति पशुधर्मः तदानीं सः अवगच्छति सः पशुः नास्ति वयं मानवाः वयं पशवः न स्मः अतः <im adolescents> मानवः मानवधर्मम् मानवा अनुसृत्य वर्तते सः सः अनुसृत्य वर्तते चेत् तर्हि तदानीं सः शान्तिं प्राप्नोति आनन्दं प्राप्नोति इति बहु विषयः अस्ति अतः साधनार्थं एतत् सर्वं यद् अस्माभिः चर्चितं सात्विकाहारः आसनानि उपवासः अन्यत् यत्किमपि अस्माभिः चर्चितं तत्सर्वमपि साधनायाः सिद्ध्यर्थं साधनायां साफल्यं प्राप्तुमेव एत येता, एतानि सर्वाणि अङ्गानि सहायकानि भवन्ति इति अत्र लौकिक लौकिकसुखं लौकिकसुखं यद्वयं प्राप्नुमः लौकिकवस्तुभ्यः तत् कदापि अनन्तं न भवितुम् अर्हति तद् वर्षतया अस्माभिः अवगन्तव्यं तत् सर्वं क्षणिकमेव कदापि अनन्तं न भवितुम् अर्हति अस्तु तर्हि एतावता उक्त्वा अत्र बहु अग्रिमपरिचयः बहु विस्तृतः अस्ति ओके लघु एव अस्तु विजयभग्ने अग्रे पठति वा अस्तु महोदय नमस्कारः नमस्कारः प्राप्तु एतदेव खलु मनुष्याणां लक्षणं धर्मः वा ब्रह्मप्राप्तिः एव आम् मनुष्याणां लक्षणं धर्मः वा ब्रह्मप्राप्तिः वा एव अस्ति अतः ब्रह्म विद्यते न इति अवश्यं परिशीलनीयं भवति यतः यत् वस्तु न विद्यते एव तस्य वस्तुनः प्राप्त्यर्थं सर्वे प्रयत्नाः व्यर्थाः भवेयुः अपि च यदि ब्रह्म विद्यते तर्हि तत् किम् इति अस्माभिः अवश्यं ज्ञेयम् अत्र मनुष्याणां लक्षणं धर्मः वा किं वा एव अस्ति अनन्तेक्षणा अस्ति मनुष्याणां लक्षणमस्ति अनन्तरम् तस्य अन्तिम इच्छा इत्युक्ते अत्र ब्रह्मप्राप्तिः एव तस्य लोटस् स्वीट् अत्र प्राप्तव्यम् इति मनुष्याणाम् इच्छा अस्ति अन्तिम इच्छा अपि अस्ति अतः तत्र एकः प्रश्नः उदेति ब्रह्म विद्यते वा न विद्यते वा इति एतत् अवश्यं परिशीलन् परिशीलनार्थं यतः भवितव्यमेव ब्रह्मं नास्ति चेत् अत्र किमर्थम् अत्र तपः आचरणीयम् अनन्तरं योगिनः साधवः सर्वे सन्ति एव एतत् ब्रह्मविषये किञ्चित् दृष्ट्वा यः पश्यति सः पश्यति इति उक्तवान् अतः ब्रह्मविषये अवश्यम् अत्र परिशीलनम् अभवत् अतः एव यत्र कुत्रापि साधवः द्रष्टुं अतः एतत् ब्रह्मं प्राप्त्यर्थमेव प्रयत्नाः समीचीनमेव अत्र व्यर्थाः इति न वक्तुं शक्नुमः व्यर्थाः भवति चेत् किमर्थम् अत्र साधवत् तिष्ठन्ति प्रयत्नम् आसीत् यः पश्यति सः पश्यति अपि यदि ब्रह्म विद्येते तर्हि तत् इति अस्माभिः अवश्यं ज्ञेयं ब्रह्मविषये किञ्चित् इतोपि परिशीलनार्थम् करणीयमेव किञ्चित् मनुष्यः उक्तवान् उक्तवन्तः अहं ब्रह्मास्मि इति सर्वत्र ब्रह्म सर्वमनुष्येषु अन्तर्भावः अस्ति एव इतोपि अस्माभिः एतत् विषये आवश्यकम् अवश्यम् अत्र ज्ञेयमेव तावदेव खलु सम्यक् सम्यक् सम्यक् सम्यक्तया उक्तवती इति इत्युक्ते एतावता यत् चर्चितं तस्मात् वयं ज्ञातुं शक्नुमः मानवधर्मः कः अस्माकं लक्ष्यं किम् इति वयं ज्ञातुं मनुष्यस्य मनसि अनन्तसत्तां ज्ञातुम् इच्छा तादृशी इच्छा एव सर्वेषां मनुष्याणां धर्मः अस्ति यां सत्तां वयं इच्छामः सा एका एका एव अस्ति एका अस्ति इट्स् नाट् लैक् वि हेव् मेल् मेनि एण्टिटीस् दि हेव् ओन्लि वन् एण्टिटि विच इस् इन्फैनैट् एका सत्ता एव अनन्ता अस्ति तस्य नामकरणमस्ति तस्याः सत्तायाः नामकरणमस्ति ब्रह्म अतः इदानीं वयं वदामः यदि ब्रह्म अस्ति तर्हि तर्हि अस्माभिः ज्ञातव्यं यद् ब्रह्म अस्ति प्रथमतया ब्रह्म अस्ति न वा इति ज्ञातव्यम् ब्रह्म अस्ति चेत् ब्रह्म अस्ति इति अस्माभिः ज्ञातं तर्हि ब्रह्म अस्ति चेत् अस्माभिः कथं ब्रह्म प्राप्तिः कथं ब्रह्मणः प्राप्तिः भवति इति अस्माभिः ज्ञातव्यम् इति तदेव विचारः अग्रे आयास्यति तर्हि अत्र कोऽपि प्रश्नः अस्ति वा अवगम्यते अत्र किमुक्तमिति आल्सो रैट् आं भगिनि सर्वैः अवगम्यते वा वि हे द इङ्ग्लिश् ट्रान्स्लेशन् आल्सो इफ् यु नाट् एबल् टु फ़ालो इन् संस्कृत् यु केन् आल्सो आल्वेस् रीड् द इङ्ग्लिश् वर्षन् अण्ड् आस् क्वश्चन्स् यु हेव् एनि क्वश्चन्स् ऐकिङ्ग् दट् वि आल् केन् अण्डर्स्टाण्ड् संस्कृट् अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः नमस्कारः प्रतिदिरात्रि धन्यवादः नमस्कारः